श्रीमद्भागवतमहापुराणं पञ्चमस्कन्धम् आमो मधुरुहो मेघपृष्ठ सुधामाभ्याजिष्णो लोहिताणौ वनस्पतिरिति घृतपृष्ठसुतास्तेषां वर्षगिरयः सप्तसप्तैव नद्यश्चाभिख्याताः शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतो भद्र अभया अमृतौघा आर्यका तीर्थवती वृत्तिरूपवती पवित्रवती शुक्लेति यासां मम्भः पवित्रम् अमल अलमुपयुज्यानाः पुरसरिसभद्रम्बदेवसंज्ञाः वर्षपुरुषा अपोमयं देवम् अपां पुर्णेनाञ्जलिना यजन्ते तापपुरुषवीर्यास्तपुनन्ते भुव स्वः तान् पुनीतमिवग्ने स्पृशताम् आत्मना भुविति एवं पुरस्तात् क्षीरोदात् परित उपवेशितः शाकद्वीपो द्वात्रिंशल्लक्षयो तबालेन चन्दधिमण्डोदेन परीतो यस्मिन् शाको नाम न हिरुह स्वक्षेत्रव्यपदेशको यस्य महासुरभिर्गन्धस्थं दीपमनुवासयति तस्यापि प्रव्रत एवाधिपतिर्नाम्ना भेधातिथि सोऽपि विभज्य सप्तवर्षाणि पुत्रनामानि तेषु स्वात्मजान पुरोजवं मनो जवं, जवं पवमानधुम्रालीकचित्रलेप बहुरूप विद्वं धारसंज्ञानि धाव्याधिपती न स्वयं भगवन्त्यन्त आवेशितम् अतिस्तं पोवनं प्रविवेश एते एतेषां वर्षमर्यादागिर्यो नद्यस्य सप्तसप्तैव ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रसोतो देवपारो महानस इति अनघायुर्दा उभयस्पृष्टिरपराजिता पञ्चपदीसहस्रश्रुतिर्निजधृतिरिति तद्वर्षपुरुषार्ृतं व्रत सज्जव्रत दानव्रतानुव्रत नाबाल भगवन्तं वाज्यात्मकं प्राणायामभिधूत रजस्तमस परम समाधिना यजन्ते अन्तः प्रविश्य भूतालीजो बिभर्त्यात्मकेतुभिः अन्तर्यामीश्वरसाक्षात् पातु नो यद्वचे स्फुटम् एवमेव दधिमण्डोदात्परतपुष्करद्वीपतस्तो द्विगुणायामः समन्तत उपकल्पितसमानेन स्वादुदकेन समुद्रेन बहिरावृतो यस्मिन् बृहत्पुष्करं जलन् शिखामलक नकम् भगवत भगवत् कमलासनस्याध्यासनं परिकल्पितम् तद्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनप्राचीनवर्षयोर्मर्यादाचलो युतयोजन्नो यायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणीलोकपालानाम् इन्द्रादीनां जलपरिष्टा सूर्यरथस्य मेरुं परिभ्रमत संवत्सरात्मकं चक्रं देवानाम् अहोरात्रा परिभ्रमति तद्दीपस्याप्यधिपति प्रैव्रतो वीति होत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्षपति विद्य स स्वयं पूर्वजं द्वम् भगवद्गर्मशील एवास्ते तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण कर्मणाराधयन्तिदं चोदाहरन्ति यत्कत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जलोर्चये एकांतं अद्वयं शान्तं तस्मै भगवते नमैति